हरि श्री श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवपुराणमहात्मे तृतीयोऽध्यायः चञ्चुलावैराग्यवर्णनम् शौनकौवाच महाभाग सर्वज्ञोऽसि महामते तत्प्रसादात्कृतार्थोऽहम् कृतार्थोऽहम् पुनः पुनः इतिहासम् इमम् श्रुत्वा मनो मेतीव मोदते अन्यामपि कथाम् शम्भो वद प्रेम विवर्धिनीम् तामृतम् पिवताम् लोके मुक्ति क्वापि सभाज्यते शम्भो कथा सुधापानं। मुक्तिदायकम् धन्या धन्या कथा शम्भो तम् धन्यो धन्य एव च शिवलोकम बृजेन्त उवाचे शुणुश नक वक्षाद्रे गुह्यम्यदय यत शिवभक्ताेद विमे समुद्र निक देशे ग्रामो कहे पाष्कस वसंती येदर्मोता जनह दुष्टादुर्वया निर्द्व जिम्मत कृषीवला शत्रुधरा परस्त्री भोगिनः कला ज्ञानवैराग्य सद्धर्मम् न दानन्ति परं हि ते कुकथाश्रवणाढ्येषु निरताय पशुबुद्धय अन्ये वर्णाच्च कुधिय स्वधर्मविमुखा कल कुकर्म निरता नित्यम् सदा भीषयिणश्च ते कुटिला स्वैन्य पापलालसा चारेण्य सद्वृत्ताचार वर्जि एव पूजन संवास ग्रमे बाधि त्रेकिंदुनासीधम स दुरात्म पी सुधारोपी कुमार गैश्पतिर्बूवाथ काम कुतमान सपत्म चंचलां नाम हिमा नि सुधर्मणी प्रेमे स वैश्य दुष्ट स्मर्बाण प्रपीडितः एवं कालो विधीताय महान्तस्य कुकर्मण साश्वधर्म भयात् क्लेशात् स्मरातापि च चञ्चला अथ तस्याङ्गना सापि प्रूढे नवयौवन अवसह्य स्मरावेशात् ङ्गता संगता रे रेमे पापेन गुप्ततः पतिदृष्टिं वञ्चयित्वा भ्रष्टतत्वा कुमारगा कदाचित्ताम् द्राचारम् स्वपत्नीम् चञ्चुलाम् मुने जारेण सङ्गताम् रात्रौ ददर्श्य स्मरविह्वलाम् दृष्ट्वा ताम् दूषिताम् पत्नीम् कुमार कुकर्म शक्तमानसाम् जालेण सङ्गतां रात्रौ क्रोधा रुद्राववेगत तम् आगतं गृहे दुष्टम् आज्ञाय बिन्दुगं कले पलायितो द्रुतं जारो वेगत छद्मवांसै अथ च बिन्दुगपत्नीं गृहीत्वा सुदुराशय मुष्टिबन्धेन संसर्ज्य पुनः पुनर्ताडय सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी कला कुपिता निर्भया सहे स्वपतिम् बिन्दुगम् खलम् चञ्चुलोवाच भवान् प्रतिजनम् कामम् रमते वेषय कुधि माम् विहाय स्वपत्नीम् च युवतिम् रूपवत्या युवत्या च कुलिसचेत विना विनापति विहारम् स्यात् कागतिरम्बे भवान वदेत् अहम् रूपवती नवयौवन विवला कथं सहे कामदुःखम् तव सङ्गम् विनादधि सूत उवाच इत्युक्त श्रुतया मूर्खो मूढधि भ्रमणो रमय प्रवाच बिन्दुगप्पापि स्वधर्मविमुखे बिन्दुग हि कामव्याकुलचेतथा हितम् वक्ष्यामि तस्मात् ते शृणु कान्ते भयं त्यजे नित्यं तम् चेतस निर्भयेन वै धनम् आकर्षतेभ्यो हि दत्त्वा तेभ्यः परामृतिम् देहि सर्वम् वे वैषा संसक्त चेतसहे मत्स्वार्थम् भवे नूनम् तवापि च ममापि च श्रूतो वाच इति भद्रो चञ्चुला तद्वधू तथेति भक्तुवचनं पथि च ग्राहरुषधि कुत्रैवं तौ वैरं प्रति दुष्टमानसो कुकर्म निर्दो जातो निर्भये कुचेतसा एवं तयो सुदम्पत्यो दुराचार्य प्रवृत्तयो बालकालो वितीयाय निफलो मूढचेतसो अथ विप्र सुकुमतिर्बिन्दुवो वृषलीपति कालेन निधनं प्राप्तो जगाम नरकं कल भुक्त्वा नरकदुःखानि बहुहानि च मूढधि विद्धे भवत् पिशाचो हि गिरोक्त्वा वयङ्कर मृते भर्तरि तस्मिन् वै दुराचारे तबिन्दुहे वास स्वगृहे पुत्रे च कालं विमूढधि एवं विहरति दारिता नरभि चञ्चुलाहया आचीत् कामरता प्रीत्या किञ्चित् उत्क्रान्तयौवनः एकदाय दैवयोगेन सम्प्राप्ते पुण्यपर्वणि सा नारी बन्धुभिः सार्धं गोकर्णम् क्षेत्रमाययो प्रसङ्गात् तदा गत्वा कस्मिञ्चित् तीर्थपाठसि सामान्यतो यत्र तत्र बभ्रामबन्धुभि देवालये च कस्मिंश्चित् दैवज्ञमुखतशुभम् शुश्राव सत्कथाम् च भोपुण्याम् पौराणिकीम् च सा योषिताम् जालसक्तानाम् नरकेयमशिङ्करः सन्तप्तलोहपरिगम् क्षिपन्ति स्मरमन्दिरे इति पौराणिकेनोक्ताम् श्रुत्वा वैराग्यवर्धिनीम् कथामासीत् भयोद्विघ्ना शकम्पे तत्र सा कथासमाप्तो सा नारी निर्गतेषु जनेषु च भीतारसितम् प्राहे शैवम् संवाचकं द्विजम् चञ्चलोवाच ब्रह्मन्तम् शृण्व सद्वृत्तम् अजानन्त्या स्वधर्मकम् श्रुत्वा मामुद्धरस्वामी कृपाम् कृत्वा तुलामपि चरितम् सुर्वणम् पापम् मया मूढरिया प्रभो पौञ्चाल्यतः सर्वं यौवनं मदनान्धया श्रुत्वेदं वचनं चेद्य वैराग्यरसजुम्बम् दाता महाभया साहम्बा मूढदियं पापां काममोहितचेतसं निन्द्यां दुर्विशीया सक्ताम् विमोक्षिम् हि स्वधर्मत यदल्पस्य सुखस्यार्थे स्वर्यशिपापत घोरम अजांकम या दुर्गति काम काम घोरां कच्चलायिनीति मां तत्माग रन सां मेय यम दूता कथम द्रक्षे भयंगरा कथम पशे बलात्कृतिम ल कथम सहिष्ये नरके खण्डशोदेह कृन्दनम् यातनाम् तत्र महतीम् दुःखराञ्च विशेषाम् इन्द्रियाणाम् कथम् प्राप्स्यामि शोचति रात्रौ कथम् लभयिष्येऽहम् निद्राम् दुःख परिप्लुता हा हतास्मि च दग्धास्मि विधि हृदयास्मि च सर्वथाहम् नष्टास्मि पापिने सर्वथाप्यहम् आविदे माम् ह पापे तत्तादुष्ये मशिं हठात् अपति यत् स्वधर्माद्वै सर्वसौख्यकरादहो शूलप्रोतस्तशैलाग्रात्मतस्तु गततो द्विजय यद्दुःखम् विहिनो घोरम् तस्मात् कोटि गुणम् मम अश्वमेध शतम् कृत्वा गङ्गाम् स्नात्वा शतम् तमः न शुद्धिजायते प्रायो मत्पापश्च किं करोमि क्व गच्छामि कम्वाय शरणमाश्रये कत्रा मां लोकेऽस्मिन् पतन्ति नमेव मे गुरुर्ब्रह्मन्माता त्वं पितासि च उद्धरोद्धरम्बाम् दीराम् तमेव शरणं गताम् सूत उवाच इति सञ्जातनिर्वेदाम् पतितां चरणद्वये उत्थाप्य कृपया धीमान् बभाषे ब्राह्मणस्यै इति श्रीकान्द्रेश्वर पुराणमात्म्ये चञ्चुला वैराग्यवर्णनम्